मार्कण्डेयपुराणम् अध्यायं हण्ड्रड् एण्ड् ट्वेल्व् मार्कण्डेय उवाच तस्मै दत्वात्तदःशापं नलं क्रुद्धो ब्रवीद्विज प्रमदिर्भार्गभकोपात्रैलोक्यं निर्दहन्निव मदोन्मत्तो यदो भार्यां भवानत्र ममाश्रमे बलाद्गृह्णादिभस्मत्वं तस्माद्व्रजतुमाचिरम् तेनोदाहृतमात्रे च वाक्ये तस्मिंस्तदा नलः देहजेनाग्निना सद्यो भस्म भस्मपुञ्जस्तदाभवद् दृष्ट्वा प्रभावं तं तस्य सुदेवो विमदस्ततः प्रणामनम्रः प्राहेदं क्षम्यदां क्षम्यतामिति यदुक्तवां भगवन् सुरापानमदाकुलं तत्क्षम्यतां प्रसीदत्वं शापोऽयं विनिवर्त्यतां। एवं प्रसादितस्तेन प्रमदि प्राहभार्गवः गदकोपो नले दग्धे नावनीतेन चेदसा नान्यथाभावितद्वाक्यं जन्मया समुदीरितं तथापि दे करिष्यामि प्रसन्नोऽनुग्रहं परं भविता भवान्नास्त्यत्र संशयः भविता क्षत्रियो वैश्यस्तस्मिन्नेव शुजन्मनि ग्रहीष्यति बलात् कन्यां यदा ते क्षत्रसम्भवः तदा त्वं क्षत्रियो वैश्यस्वगृहीतो भविष्यसि एवं स वैश्यो भूपाल सुदेवोऽस्मत्पिता भवद अहं चया महाभाग तत्सर्वं श्रूयतां त्वया सुरदो नाम राजर्षि प्रागासीद्गन्धमादने तपस्वि नियदाहारस्त्यक्तसङ्गो वनाश्रयः तदशेन मुखभ्रष्टाम् दृष्ट्वैकाम् शारिकाम्भुवि कृपा भूज्जनिता मूर्च्छा तथा तस्य महात्मनः ततो मूर्च्छावसानेऽहम् तस्योत्पन्ना शरीरतः स मां दृष्ट्वा च जग्राह स्निह्यमानेन चेतसा यस्मात् कृपाभिभूतस्य मम जादेयमात्मजा तस्मात् कृपावदीनाम्ना भविष्यत्याह स प्रभो तदोऽहमाश्रमे तस्य वर्धमाना दिवानिशम् तदो मुने सखीयाचरा वना चो मुगस्गस्त श्रुता सचिन्वक सखी तो शपथ यस् वैश्यहती ने ते शपे वैश्या भविष्यसीत्युक्ते प्रसाद्योक्तो मया मुनिः नापराधं कृतवती तवाहं द्विजसत्तम पराधेन किमर्थं शप्तवानसि ऋषिरुवाच दुष्टदां दुष्टसंसर्गादुष्टमपि गच्छति सुरा बिन्दुनिपातेन पञ्चगव्यखडो यथा प्रणिपत्यह्यनिष्ठोऽपि यत्त्वयाहं प्रसाधितः तस्मादनुग्रहं बाले शृणुष्व च वैश्ययो नौ यदा जादा त्वं पुत्रं बोधयिष्यसि राज्ञायज्जातिस्मरतां तदा त्वं समवाप्स्यसि तदो भूयः क्षत्रजातिं प्राप्ता त्वं पदिना वाप्स्यसे दिव्यानवाप्स्यसे भोगान् गच्छ भीतिरपैदुते एवं सप्तास्मि राजेन्द्र तेन पूर्वं महर्षिणा पिता च मे पूर्वमेवं सप्तः प्रमतिनाभवत् एवं, प्रमतिना एवं वैश्यो न राजंस्त्वं न च वैश्यः पिता मम न त्वं हि मह्य दुष्टायामदुष्टो दुष्यसे कथम् यीमार्कंडेयपुराणे द्वादाधिकम्याय